नमस्ते रुद्रमन्यव उतोषपे नमः नमस्ते अस्तु सन्मने बाहुभ्यामुदते नमः यात इषः शिवतमा शिवम् बभूवदे धनुः शिवा शरौजा यातवदया नो रुद्रमिडया याते रुद्रशिवा तनु रघोरापापकाशिनी दया नस्तनुवासम् तमजागिरिशन्दापि चाकशीः यामिषम् गिरिशन्त हस्तेऽपि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 तयास्मानि विश्वदस्तमजा परिभुज नमस्ते अस्माभिजानाददाय विष्णवे उभाभ्यामुददे नमो बाहुभ्याम् तव धन्मने फलिते धन्मनो हेतुरस्मान् वृणद् विश्वतः नषधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वे स्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकायत्रिकालाग्निकालाय नमः नमो हिरण्यवाहवेशे नमो नमा पशूनां पदरेन मो नमः सस्मिन्दराध त्वषे मदयसीनां पददेन मो नमो बभृषादविजान्नानां पदेन मो नमो हरिकेशाजोपवेतिने पुष्टानां नमो भवस्य हेत्ये जगदां पदेन मो नमो रुद्राजातदागिने क्षेत्राणां पदेन मो नमः सूताया हञ्जा यवनानां पदेन मो नमो पददे वृक्षाणाम् पदवे नमो नमो मन्त्रिणे वा निजाय कक्षाणाम् पददे नमो नमो भुवं ददेवायवस्कृता जौषधीनाम् पददे नमो नम उच्चैर्घोषाया क्रन्दय दे पत्तीनाम् पददे नमो नमः कृत्स्नवेता यथापदे सत्त्वनाम् पददे नमः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 नमो नम उष्णे गिरजराजकन्थानां पदले नमो नम विषुमद्भो धन् वा विभ्यश्च व नमो नमः आतन्वा नेभ्यः प्रजदथानेभ्यश्च नमो नमः आयच्छद्भ्य सृजद्भ्यश्च व नमो नमास्यद्व विद्वद्भ्यश्च व नमो नमः आसेनेभ्येभ्यश्च व नमो नमस्तवद्भ जाग्रद्भ्यश्च व नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च नमो नमः सभाभ्य भ्यश्च भवदिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपदिभ्यश्च नमः ुजाभ्य विविद्धन्तेभ्यश्च वानमानमपुगणाभ्यस्त्रबह्मदेभ्यश्च वा न मानम कृच्छेभ्य गृच्छपदेभ्यश्च वा न मानमो व्रातेभ्यो व्रातपदेभ्यश्च वा न मानव गणेभ्य गणपदेभ्यश्च वान मानमभिलोपेभ्य विश्वरोपेभ्यश्च वा न मानम महद्भ्यः क्षुल्लकेभ्यश्च वानमानमा रथेभ्यो रचेभ्यश्च वानमानमारथे ो रथपदेभ्यश्च वो नमो नमः सेनाभ्य सेनानिभ्यश्च नमो नमः क्षत्रुभ्यः नमो नमस्तक्षभ्यो न सकारेभ्यश्च नमो नमः भ्यश्च वो नमो नमः पुन्दिष्टेभ्यो निषादेभ्यश्च वो नमो नव इषकृद्भ्य धन्मकृद्भ्यश्च वो नमो नमा मृगजुभ्य स्वदेभ्यश्च वो नमो नमस्वभ्यश्च वदिभ्यश्च नमः नमो भवाय च रुद्राय च नमः शर्वाय चपशपदय च नग्रीवाय दश दिगण्ठाय च नमः च व्यक्तकेशाय च नमः सहस्राक्षाय च शतधन्मने च नमो केशाय चषाय च नमो मे च मदय च नमो ह्रस्वाय जना च नमो बृहदे च वऋषे जनमो वृद्धाय च संवृद्धने च नमो अग्र्याय च नम आशवेचराय च नमस्य भ्यजागत सेभ्यागत नव कोऽ्यागचावस्वन्यागत नमः च नममोहा ज्येष्ठाय जघनिष्ठाय जनमः पूर्वजाय च परजाय धनमो मध्यमागजा गन्भाय जनमो दघन्याय जबुध्निजाय धनमसौभ्याय जप्रति सर्जाय धनमो यामन्याय चक्षेम्याय धनमपुर्वय जफुल्याय धनभस्रौक्याय च्याय धनमोऽवन्याय जगक्ष्याय धनमश्रवाय जप्रति श्रवाय धनम आशुषेणाय चासुरथाय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 मेघ्याय च विद्युत्याय च न वेभ्ययाय चा तप्याय च नभो वात्याय च लेश्म्याय च च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमशङ्काय च पशुपतजय च नम च नमो अग्रे च दूरे च नमो ह्रे च नमो वृक्षेभ्यो हरिवेशेभ्यो नमस्ताराय नमशम्भवे जमजो भवे च नमः शङ्कराय च नमशिवाय च शिवतराय चमस्त्य च गोल्याय च नमः जा च नमः चोत्तरणाय च नम आधार्याय चालाज्याय च नमषष्ठ्याय चैन्याय च नमस्य गत्याय नमगिरण्याय चनमह् शिराज चक्षयणाय धनमह्कपघे च पुरस्तरे जनभोगोष्ठ्याय जगिष्याय जनभस्तल्भ्याय जघेह्याय जनमकाद्याय जगस्परेष्ठाय जनमो हद्याज जनभेष्ट्याय जनमस्पागं सव्याय जरदस्याय जनमशुष्याय धरत्याय जनमलोप्याय चोलभ्याय च नमपूर्याय च सौम्याय जनमः्याय जम य जनवापगुरमाणाय चाभिक्षणते च न प्रक्षिदते जनवालिकेभ्यो देवाहृदयेभ्यो नमाभिक्षेटकेभ्यो नमा विचिन्वत्केभ्यो न आनिर्हतेभ्यो नीमत्येभ्यः भावे अन्धदस्पदे दरिद्रम् नीललोहित येषाम् पुरुषाणामेषाम् पशूनाम् एषाम् भिञ्च नामच राते रुद्रशिवातनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तदा नो वृणजीवसे निमागम् रुद्राय तमसे कवर्धिने क्षयन्वी राजप्रभरामहे मतिम् न सद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् प्रडानरुद्रतमामयस्कृति क्षयव्ये राजनमसा विधेमते याच्छान्तजा समनुरागजे पिता तदस्या मदवरुद्रप्रणेतौ मान महान्तमुदमानार्धकम् मान भुक्षन्तमुदमान मानावधे पितरम् मादमादरम् वृजामानस्तनुवो रुद्ररीरुषः मानस्तोके तनजे मान आयुषि मानो गोषु मानो अश्वेश्वरीरुषः वीरान्मानो रुद्रभामितोऽवधीर्हविश्वम् तो नमसा मते आराध्ये गोग्नपदपूरुषर्धे क्षयद्वीरायशं नमस्मेते अस्तु रक्षाजन अशजेवनम् मृगन्न भेमौ ग्रम्चरित्रैरुद्रस्तवानो अन्यन्ते अस्मन्यपन्तु हेतुर्वृणक्तपरिद्वेस्यमेध्वस्तो कायतनजा मेघट्टमशिवदमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधा जकृत्यम् वसानहा च रविनाकम्ब्यभ्रदागहि बिगिरिदविलोहितनमस्ते अस्तु भगवः यास्ते सहस्रगम् हेतयोन्यमस्मन्निव पन्तुताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीना मुखाकृधि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 सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्त मे तानि यज्ञस्य पायजा सर्व नवगजामहे मृत्यभे स्वाहा मृत्यभे भगवते रुद्राय विष्णवे मृत्युर्मे भाई प्राणा रज्रामाविश्रान्तगाः येनान्येनाहाप्यायस्वा demand it, limit it, demand it, यौहे च मे पञ्चाविष्टमे पञ्चाभि मे त्रिवत्सष्ट मे त्रिवत्साधमे दुर्वाच्य मे दुर्यौ हे च मे वैष्ठवाच्च मे वैष्ठौ हे चम वृक्षा च मे वशाच मठभश्च यज्ञानकल्पना महात्मा यज्ञानकल्पदा यज्ञायज्ञानकल्पदा